अथैको ननवतितमः सर्गः युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ प्रभिन्नाविव मातङ्गौ परस्पर जयैषिणौ तयोर्युद्धम् द्रष्टुकामो वरचापधरो बली शूरः स रावणभ्राता तस्थौ सङ्ग्राममूर्धनी ततो विस्फारयामास महद्धनुरवस्थितः उत्ससर्जच तीक्ष्णाग्रान् राक्षसेषु महाशरान् ते शराशिखि संस्पर्शानि पतन्तः समाहिताः राक्षसान्द्रावयामासुर्वज्राणीव महागिरीन् विभीषणस्यानुचरास्तेऽपि शूलासि पट्टिषैः चिच्छिदुःसमरे वीरान् राक्षसान् राक्षसोत्तमाः राक्षसैस्तैः परिवृतः स विभीषणः बभौ मध्ये प्रधृष्टाणाम् कलभानामिव वद्विपः ततः सञ्चोदमानो वै हरीन् रक्षो वध प्रियान् उवाचवचनम् काले कालज्ञो रक्षसाम् वरः एकोऽयम् राक्षसेन्द्रस्य पारायणमवस्थितः एतच्छेषम् बलन्तस्य किम् तिष्ठतः हरीश्वराः अस्मिंश्च निहते पापे रावणम् वर्जयित्वा तु शेषमस्य बलम् हतम् प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः जम्बुमालीमहामालीतीक्ष्णवेगोशनि प्रभः सुप्तघ्नो यज्ञकोपश्च वज्रदंष्टश्च राक्षसः संह्रादिविकटो रिघ्नस्तपनो मन्द एव च प्रघासः प्रघासश्चैव प्रजङ्घो जङ्घ एव च अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् विद्युज्जिह्वोद्विजिह्वश्च सूर्यशत्रुश्च राक्षसः अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ एतान्निहत्यातिबलान् बहून् राक्षससत्तमान् बाहुभ्याम् सागरम् तीर्त्वा गोष्पदं लघु एतावदेव शेषम् वो जेतव्यमिति वानराः हताः सर्वे समागम्य राक्षसा बलदर्पिताः अयुक्तम् निधनम् कर्तुम् पुत्रस्य जनितुर्ममा घृणामपास्य रामार्थे निहन्याम् भ्रातुरात्मजम् हन्तु मे बाष्पम् चक्षुश्चैव निरुध्यति तमे महाबाहुर्लक्ष्मणः शमयिष्यति वानराघ्रतसम्भूय भृत्याणस्य समीपगार् इति तेनाति यशसा राक्षसेनाभिचोदिताः वानरेन्द्राजहृषिरेलाङ्गूलानि च जाम्बवानपि तैः सर्वैः स्वयूथ्यैरभिसंवृतः तेष्मभिस्ताडयामासुर्नखैर्दन्तैश्च राक्षसान् निघ्नन्त वृक्षाधिपतिम् राक्षसास्ते महाबलाः परिवव्रुर्भयम् त्यक्त्वा तमनेकविधायुधाः शरैः परशुभिः तीक्ष्णैः जाम्बवन्तम् वृथे जघ्मर्निघ्नन्तम् राक्षसीम् च मूम् स सम्प्रहारस्तु मुलः सञ्जज्ञे कपि रक्षसाम् देवासुराणाम् क्रुद्धानाम् महास्वनः हनूमानपि सङ्क्रुद्धः सालमुत्पाट्य पर्वतात् पृष्ठादवरोप्य महामनाः रक्षसाम् कदमञ्चक्रे दुरासादः सहस्रशः स दत्त्वा तु मुलम् युद्धम् पितृव्यस्येन्द्रजिद्बली लक्ष्मणम् परवीरघ्नः पुनरेवाभ्यधावत तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ चन्द्रादित्या विवोष्णान्ते यथा मेघैस्तरस्विनौ न ह्यादानम् न सन्धानम् धनुषो वा परिग्रहः न विप्रमोक्षो बाणानाम् न चापवेगप्रयुक्तैश्च बाणजालैः समन्ततः अन्तरिक्षेऽभि सम्पन्ने न रूपाणि चकाशिरे लक्ष्मणो रावणिम् प्राप्य रावणिश्चापि लक्ष्मणम् अव्यवस्था भवत्युग्र ताभ्यामन्योन्यविग्रहे ताभ्यामुभाभ्याम् तरसा प्रसृष्टैर्विशिखैषितैः निरन्तरमिवाकाशम् बभूवतमसावृतम् तैः पतद्भिश्च बहुभिस्तयोः शरशतैःषितैः दिशश्च प्रदिशश्चैव बभूवुशरसङ्कुलाः तमसा विहितम् सर्वमासीत् प्रतिभयं महत। अस्तङ्गते सहस्रांशौ संवृते तमसा च वै रुधिरौघामहानद्यः प्रावर्तन्त सहस्रशः क्रव्यादादारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनान् स्वस्य स्तु लोकेभ्य इति जजल् पुस्ते महर्षयः सम्पेतुश्चात्र सन्तप्ता गन्धर्वाः सह चारणैः कृष्णान् कनकभूषणान् शरैश्चतुर्भ्यः सौमित्रिर्व्यव्याधचतुरोहयान् ततोपरेण भल्लेन पीतेन निशितेन च सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा महेन्द्राशनिकल्पेण सूतस्य विचरिष्यतः सतेन तेन बाणाशनिना तलशब्दानुनादिना लाघवाद्राघवः श्रीमाञ्चिरः कायादपाहरत् सयन्तरिमहाते चाहते मन्दोदरी स्वयं स्वयम् सारथ्यमकरोत् तदद्भुतमभूत् तत्र सारथ्यम् पश्यताञ्जुधि हयेषु व्यग्रहस्तन्तम् विव्याधनिषितैः शरैः धनुष्यथ पुनर्व्यग्रम् हयेषु विषण्णवदनम् दृष्ट्वा राक्षसम् हरियूथपाः ततः परमसंहृष्टा लक्ष्मणम् चाभ्यपूजयन् ततः प्रमाथीरभसः शरभो गन्धमादनः अमृष्यमाणाश्चत्वारश्चक्रुर्वेगम् हरीश्वराः ते चास्य तेषामधिष्ठितानाम् तैर्वाणरैः पर्वतोपमैः मुखेभ्यो रुधिरम् व्यक्तम् भयानाम् समवर्तत ते हयामथिता भग्नाभ्यसवोधरणीम् गताः ते, गता। ते निहत्यहयांस्तस्य प्रमथ्य च महारथम् पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः सहताश्वादवप्लुत्य रथान्मथितसारथिः शरवर्षेण सौमित्रिम्यत रावणि तहेंद्र प्रतिम स लक्ष्मण पदातिहतर्म सृज तजौ निशितायत इशे श्रीमद् राये वाक्ये युद्धकांडे एक नवति सर्ग